अथैकादशः सर्गः अग्रतः प्रययौ रामः सीता मध्ये सुशोभना पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनु जगामः तौ पश्यमानौ विविधाश्चैलप्रस्थान् वनानि च नदीश्च विविधारम्या जग्मतुः सह सरांसितस पद्मानि युतानि जलजैः खगैः यूथबद्धांश्च पृषतान् मदोन्मत्तान्मिषाणिनः महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः ते गत्वा दूरमध्वानम् लम्बमाने दिवाकरे ददृशुः सहितारम्यम् योजनायुतम् पद्मपुष्करसम्बाधम् गजयूथैरलङ्कृतम् सारसैर्हंस कादम्बैः सङ्कुलम् जलजातिभिः प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे गीतवादित्र निर्घोषो न तु कश्चन दृश्यते ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे इदमत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने कौतूहलम् महज्जातम् किमिदम् साधु कथ्यता तेनैव मुक्तो धर्मात्मा राघवेण मुनिस्तदा प्रभावम् सरसः क्षिप्रमाख्यातुमुपचक्रमे इदम् पञ्चाप्सरो नाम तटाकम् सार्वकालिकम् निर्मितम् तपसा राम मुनिना माण्डकर्णिना स हि तेऽपे तपस्तीव्रह्माण्डकर्णिर्महामुनिः दशवर्षसहस्राणि वायुभक्षो जलाशये ततः प्रव्यचिताः सर्वे देवाः साग्निपुरोगमाः अब्रुवन्वचनम् सर्वे परस्परसमागताः अस्माकम् कस्यचित् प्रार्थयते मुनिः इति संविग्नमनसः सर्वे तत्र दिवौकसः ततः कर्तुम् तपो सर्वदेवैर्नियोजिताः प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः अप्सरोऽभ्यस्ततस्ताभिर्मुनिर्दृष्टपरावरः नीतो मदनवश्यत्वम् देवानाम् कार्यसिद्धये ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः तटाके निर्मितम् तासाम् तस्मिन्नन्तर्हितम् गृहम् तत्रैवाप्सरसः पञ्च निवसन्त्यो यथा सुखम् रमयन्ति तपो योगान्मुनिम् यौवनमास्थितम् तासाम् सङ्क्रीडमानानामेष बादित्र निःस्वनः श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः आश्चर्यमिति तस्यैतद्वचनम् भावितात्मनः राघवः प्रतिजग्राहसः भ्रात्रा महायशाः एवम् कथयमानः स ददर्शाश्रममण्डलम् कुशचीरपरिक्षिप्तम् राम्या लक्ष्म्या समावृतम् प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले उषित्वा स सुखम् तत्र पूज्यमानो महर्षिभिः जगाम चाश्रमांस्तेषाम् पर्यायेण तपस्विनाम् येषामुषितवान् पूर्वम् सकाशे समहास्त्रवित् क्वचित् परिदशान्मासानेकसंवत्सरम् क्वचित् क्वचिच्च चतुरो मासान् पञ्चषट्च परान् क्वचित् अपरत्राधिकान् मासानध्यर्थमधिकम् क्वचित् त्रीन्मासानष्टमासांश्च राघवोऽन्यवसत् सुखम् तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै रमतश्चानुकूल्येन ययौ संवत्सरा दश परिसृत्य च धर्मज्ञो राघवः सह सीतया सुतीक्ष्णस्याश्रमपदम् पुनरेवा जगामः सतमाश्रममागम्य मुनिभिः परिपूजितः तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः अथाश्रमस्थो विनयात् कदाचित्तम् महामुनिम् उपासेनः अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः वसतीति मया नित्यम् कथाः कथयताम् श्रुतम् न कृत्राश्रमपदम् रम्यम् महर्षेस्तस्य धीमतः प्रसादार्थम् भगवतः सानुजः सह सीतया अगस्त्यमधिगच्छेयमभिवादयितुम् मुनिम् मनोरथो महानेश हृदि सम्परिवर्तते यदहन्तम् मुनिवरम् शुश्रूषेयमपि स्वयम् इति रामस्य धर्मात्मनो वचः सुतीक्ष्णः प्रत्युवाचेदम् प्रीतो दशरथात्मजम् अहमप्येतदेव त्वाम् वक्तुकामः स लक्ष्मणम् अगस्त्यमभिगच्छेति सीतया सह राघव दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः योजनान्याश्रमात्तातया चत्वारि वै दक्षिणे न महान् श्रीमानगस्त्यभ्रातुराश्रमः स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते बहु पुष्पफले रम्ये नानाविहगनादिते पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः तत्रैकाम् रजनीम् युष्यप्रभाते रामगम्यता दक्षिणाम् दिशमास्थाय वनखण्डस्य पार्श्वतः तत्रागस्त्याश्रमपदम् गत्वा योजनमन्तरम् रमणीये वनोद्देशे बहुपादपशोभिते रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह स हि रम्यो वनोद्देशो बहुपादपसंयुतः यदि बुद्ध्यः कृता द्रष्टुमगस्त्यन्तम् महामुनिम् अद्यैव गमने बुद्धिम् रोचयस्व महामते इति रामो मुनेः श्रुत्वा स भ्रात्राभिवाद्य च प्रतस्थेगस्त्यमुद्दिश्य सानुगः सह सीतया पश्यन् चित्राणि पर्वतांश्चाभ्रसन्निभान् सरांसि सरितश्चैव पथि मार्गवशानुगान् सुतीक्ष्णे गत्वा तेन पथा सुखम् इदम् परमसम्भृष्टो वाक्यम् लक्ष्मणमब्रवीत् एतदेव श्रमपदम् नूनम् तस्य महात्मनः अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः यथा हीमेव नस्यास्य ज्ञाताः पथिसहस्रशः सन्नताः फलभारेण पुष्पभारेण च पिप्पलीनाम् च पक्वानाम् वनादस्मादुपागतः गन्धोऽयम् पवनोत्क्षिप्तः सहसा कटुकोदयः तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः लूनाश्च परिदृश्यन्ते दर्भा वैदूर्यवर्चसः एतच्च वनमध्यस्थम् कृष्णाभ्रशिखरोपमम् पावकस्याश्रमस्थस्य धूमाग्रम् सम्प्रदृश्यते विविक्तेषु च तीर्थेषु कृतस्नानाद् विजातयः पुष्पोपहारम् कुर्वन्ति कुसुमैः स्वयमर्जितैः ततः यथा सौम्यमया श्रुतम् अगस्त्यस्याश्रमो भ्रातुर्नो नमेष भविष्यति निगृह्यतरसा मृत्युम् लोकानाम् यस्य भ्रात्राकृतेयं कृतेयम् दिक्शरण्या पुण्यकर्मणा इहैकदा किल क्रूरो वातापिरपि चेल्वलः भ्रातरौ सहितावास्ताम् ब्राह्मण घ्नौ महासुरौ धारयन् ब्राह्मणम् रूपमिल्वलः संस्कृतम् वदन् आमन्त्रयति विप्रां स श्राद्धमुद्दिश्य निर्घृणः भ्रातरम् तान् द्विजान् भोजयामासः श्राद्धदृष्टेन कर्मणा ततो भुक्तवताम् तेषाम् विप्राणामिल्वलोऽ ब्रवीत् वातापे निष्क्रमस्वेति स्वरेण महता वदन् ततो भ्रातुर्वचः श्रुत्वा वातापि अर्मेषवन् वदन् भित्त्वा भित्त्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ब्राह्मणानाम् सहस्राणि तैरेवम् कामरूपिभिः विनाशितानि संहत्य नित्यशः पिशिता शनैः अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा अनुभूय किलश्राद्धे भक्षितः स महासुरः दत्त्वा हस्ते वले जनम् भ्रातरम् निष्क्रमस्वेति चेल्वलः स तदा भाषमाणम् तु भ्रातरम् विप्रघातिनम् अब्रवीत्प्रहसन् धीमा नगस्त्यो मुनिसत्तमः उतो निष्क्रमितुम् शक्तिर्मया जीर्णस्य रक्षसः भ्रातुस्तुमेषरूपस्य गतस्य यमसाधनम् अधतस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् प्रदर्शयितुमारेभे मुनिम् सोऽभ्यद्रवद्विजेन्द्रम् तम् मुनिना दीप्ततेजसा चक्षुषानलकल्पेन निर्दग्धो निधनम् गतः तस्यायमाश्रमो भ्रातुस्तटा कवनशोभितः विप्रानुकम्पयायेन कर्मेदम् दुष्करम् कृतम् एवम् कथयमानस्य तस्य सौमित्रिणा सह उपास्य पश्चिमाम् सन्ध्याम् सह भ्रात्रा यथाविधि प्रविवेशाश्वमपदम् तमृषिम् चाभ्यवादयत् सम्यक् प्रतिगृहीतस्तु मुनिनाथेन राघवः न्यवसत्ताम् निशामेकाम् प्राश्य मूलफलानि च तस्याम् रात्र्याम् व्यतीतायामुदिते रविमण्डले भ्रातरम् तमगस्त्यस्य आमन्त्रयत राघवः अभिवादये त्वाम् भगवन् सुखमस्नुषितो निशाम् आमन्त्रये गच्छामि गुरुम् ते द्रष्टुमग्रजम् गम्यतामिति तेनोक्तो जगामरघुनम् दनः यथोद्दिष्टेन मार्गेण वनम् तच्चावलोकयन् पनसान् सालान् मञ्जुलां स्तिनिशांस्तथा चिरि बिल्वान् मधुकांश्च बिल्वानथ च इन्दुकान् पुष्पितान् पुष्पिताग्राभिर्लताभिरुपशोभितान् भी ददर्श रामः शतशस्तत्र कान्तारपादपान् हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान् मत्तै शकुनि सङ्घैश्च शतशः प्रतिनादितान् ततोऽब्रवीत् समीपस्थम् रामो राजीवलोचनः पृष्ठतोऽनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजा आश्रमो दूरस्थो महर्षेर्भावितात्मनः अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः प्राज्यधूमाकुलवनश्चीरमाला परिष्कृतः प्रशान्तमृगयूथश्च नानाशकुनिनादितः निगृह्यतरसा मृत्युम् लोकानाम् हितकाम्यया दक्षिणादिकृता येन शरण्या पुण्यकर्मणा तस्येदमाश्रमपदम् प्रभावाद्यस्य राक्षसैः दिगियम् दक्षिणात्रा सा दृश्यते नोपभुज्यते यदा प्रभृति चाक्रान्त द्विगियम् पुण्यकर्मणा तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः नाम्ना चेयम् भगवतो दक्षिणा दिक्प्रदक्षिणा प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः मार्गम् निरोधम् सततम् भास्करस्य चलोत्तमः सन्देशम् पालयम्स्तस्य विन्ध्यशैलो न वर्धते अयम् दीर्घायुषस्तस्य लोके विश्रुतकर्मणः अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः एष लोकार्चितः साधुर्हिते नित्यम् रतः सता अस्मानधिगता नेष श्रेयसायोजयिष्यति आराधयिष्याम्यत्राहमगस्त्यन्तम् महामुनिम् शेषम् च वनवासस्य सौम्य प्रभो अत्र देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः अगस्त्यम् नियताहाराः सततम् पर्यपासते नात्र जीवेन्मृषावादी क्रूरो वा यदि वा पापवृत्तो वा मुनिरेष तथाविधः अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह वसन्ति नियताहार धर्ममाराधयिष्णवः अत्र सिद्धामहात्मानो विमानैः सूर्यसन्निभैः त्यक्त्वा देहान्न वैर्देहैस्वर्याताः परमर्षयः यक्षत्वममरत्वम् च राज्यानि विविधानि च अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्रुभैः आगतास्माश्रमपदम् सौमित्रे प्रविशाग्रतः निवेदयेह माम् प्राप्तमृषये सह सीतया इत्यादृशे वाल्मीकिये रामायणे आदिकाव्ये अरण्यकाण्डे एकादशसर्गः